वन्देऽहम् मङ्गलात्मानम् भास्वन्तम् वेदविग्रहम् याज्ञवल्क्यम् निःश्रेष्ठम् तृष्णम् हरिहरप्रभम् हरिहरप्रभं चि तक्रोधम् सदा ध्यानपरायणम् आनन्दनिलयम् वन्दे, ध्यान वन्दे योगानन्दमुनीश्वरम् प्रणम्याज्ञम् तिरमणिम् योगीश्वरशिरोमणिम् सर्वज्ञेयाज्ञवल्क्यम् दक्षिष्यङ्कात्यायनम् मणिम् ॐ श्रीयाज्ञवल्क्यगुरुभ्यो नमः कण्वकात्यायनालिमहर्षिभ्यो नमः